नारदपुराणं पूर्वार्थम् अध्यायं सेवेण्टि वन् सनत्कुमार उवाच शृणु नारद वक्ष्यामि दिव्यान्नरहरेर्मनून् यान् समाराध्य ब्रह्माद्याश्चक्रुसृष्ट्यादिकर्म वै संवर्तकश्चन्द्रमौलिर्मनुर्वह्निविभूषितः एकाक्षरस्मृदो मन्द्रो भजतां सुरुपादपः मुनिरत्रिश्च जगदी चन्दो बुद्धिमदाम्बर देवता नृहरिप्रोक्तो विनियोगोऽखिलाप्तये क्षम्बीजम् शक्तिरी शक्तिरीप्रोक्ता षड्दीर्घेण षडङ्गकम् नयनं वह्निनयनं शरदिन्दुरुचं करैः धनुश्चक्राभयवरान् दधं नृहरिं स्मरेदक्षं जपस्तद्दशांश होमश्च कृतपायशैः यजेत् यजेत्पीठे वैष्णवेदु केसरेष्वङ्गपूजनं कवेशं शङ्करं शेषं सदानन्दं दिगालिषु श्रियं प्रियं धृदिं पुष्टिं कोणपत्रेषु पूजयेद् दन्तु नृहरीं स्तावद क्रमाद कृष्णो रुद्रो महाभौरो भीमो भीषण उज्ज्वलः परालो विकरालश्च दैत्यान्तो मधुसूदनः रक्ताक्षपिङ्गलाक्षाञ्जनो दीप्तरुचिस्तथा सुखो रकश्च सुखनुर्विश्वको राक्षसान्तकः विशालको धूम्रकेशो हयग्रीवो खनस्वनः मेघवर्णकुम्भकर्णकृतान्ततीव्रते च सौ अग्निवर्णो महोग्रश्च तधो विश्वविभूषणः विघ्नक्षमो महासेनसिंहद्वात्रिंशदीरिताः तद्बहि प्रार्थयेद्विल्लोकपालान् सहेधिकान् एवं सिद्धे मनवमन्त्री साधयेदखिलेऽप्सितान् विष्णुप्रद्युम्न युक्सार्ङ्गी साग्निर्वीरं महांस्तदः विष्णुं ज्वलन्तं भृग्वीशो जलं पद्मासनं तदः हरिस्तु वासुदेवाय वैकुण्ठो विष्णुः सम्युदः गदी सेन्दुनृसिंहं च भीषणं भद्रमेव च मृत्युं मृत्युं ततः शौर्यर्भानोर्नारायणान्विदः नृहरेर्द्वाविंशधर्णाय मन्द्रसाम्राज्यदायकः ब्रह्मा मुनिस्तु गायत्री छन्दोऽनुष्टुबुधा हृदम् देवता नृगरिश्चास्य सर्वेष्टभलदायकः हम्बीजं यिं तथा चक्रिर्विनियोगो किरातये वेदैश्चतुर्भिर्वस्तुभिषड्भिषड्भिर्युगाक्षरैः षडङ्गानि निधायाथ मूर्ध्नि बाले च नेत्रयोः मुखबाह्वाङ्घ्रिसन्ध्यग्रेष्वध कुक्षौ तथा हृदि बले पार्श्वद्वये पृष्टे कगुध्यर्नान्मनुद्भवान् प्राणवान्तरितान् कृत्वा न्यसेत् साधकसप्तमः नृत्सिंहसादिध्य नृसिंहसान्निध्यकरो न्यासो दशविधो यथा कराङ्घ्रियाष्टाद्यङ्गुलिषु पृथगाद्यन्तपर्वणोः सर्वाङ्गुलिषु विन्यास्या विन्यस्या वसिष्ठं तलयोर्न्यसेत् शिरो ललाडे भ्रोमध्ये नेत्रयो कर्णयोस्तथा कपोलकर्णमूले च जिपूर्ध्वा धरोष्ट के कंठे खोणे जुजयोनौनामें दक्षा गुल्फे कट्या मेढ़्रो जाफे पादु्यो सर्वसधिशुरोमसु रक्तास्ति मज्जासुतनौ न्यसेद्वर्णान्विचक्षणः वर्णान् पदे गुल्फ जानो कठिनाभिहृदिस्थले बाह्वोः खण्डे च चिबुके चौष्ठे गण्डे प्रवीण्यसेद कर्णयोर्वदने न स पुडे नेत्रे जूर्धनि पदानि दुमुके मूर्ध्नि नसि चक्षुषि कर्णयोः आस्य च हृदयेनाभौ पादान्सर्वाङ्के न्यसेद अर्धद्वयं न्यसेन्मूर्ध्नि आहृत्पादा तदङ्कम् उग्रादीनि पदानिकमृत्युं मृत्युं नमाम्यहम् इत्यन्तान्यास्यकघ्राणचक्षुश्रोत्रेषु पक्ष्मसु हृदि नाभौज कट् त्यादिपादान्तं नव शून्यसेद वीराद्यानपि तान्येव यथापूर्वं प्रवीण्यसेद नृसिंहाद्यानि तान्येव पूर्ववद्विन्यसेत् सुखीः चन्द्राग्निवेदषड्रामनेत्र दिग्बाहुभूमितान् विभक्तान् मन्त्रवर्णांश्च क्रमां स्थानेषु विन्यसेद् मूले मूलाचनाभ्यन्तं नाभ्याधिहृदयावधि हृदयाद्भ्रुयुगान्तं हृदया तु नेत्रत्रये च मस्तके बाह्वो रङ्गुलिषु प्राणे मूर्धादिचरणावधि विन्यस्येन्ना मदो धीमान् अजिन्यासोऽयमीरिदः न्यासस्यास्य तु माहात्म्यं जानत्येगो हरिस्वयं एवं न्यासविधिं कृत्वा ज्ञाये च नृहरिं हृदि गलासक्तलसद्बाहुस्पृष्ट दीप्त दीप्तजिह्वस्त्रिनयनो दंष्ट्रोग्रं वदनं वहन् नृसिंहोऽस्मान् सदापादु स्थलाम्बुगगनोपगः ज्ञात्वैवं दर्शयेन्मुद्राः नृसिंहस्य महात्मनः जानुमध्यगतौ कृत्वा चीपुकोष्ठौ समास्तौ जूमि संलग्नौ कम्बमानः पुनः फुना पुनः मुखं विदृन्भिदम् कृत्वा लेलिखानां च जिह्विकाम् एषा मुद्रा नारसिंहीप्रधाने दिप्रकीर्तिदा वामस्याङ्गुष्ठदो बद्ध्वा कनिष्ठा मङ्गुलीत्रयं त्रिशूलवत् सम्मुखो द्वे कुर्यान्मुद्राः नृसिंहगान् अङ्गुष्ठाभ्यां च करयोस्तदाक्रम्य कनिष्ठके अधोमुखाभिशिष्टाभिशेषाभिर्नृहरौ भी ततः अस्तावधो मुखौ कृत्वा नाभिदेशे प्रसार्य च तर्जनीभ्यां नये स्कन्धौ प्रोक्ता चान्द्रणमुद्रिका अस्ता ऊर्ध्वमुखौ कृत्वा तले संयोज्य मध्यमी अनामायान्तु वामायां दक्षिणां तु विनिक्षिपेद तर्जन्यौ पृष्ठतो लग्नौ तर्जनी तर्जनीश्रुतौ चक्रमुद्रा भवेदेशा नृहरे सन्निधौ मदा चक्रमुद्रा तथा कृत्वा तर्जनीभ्यां तु मध्यमे पीडयेदं श्रुद्रैषा सर्वपापप्रणाशिनी यदा मुद्रा नृसिंहस्य सर्वमान्द्रेषु सम्मदाः वर्णलक्षं जपेन्मन्त्रं तद् दशांशं च पायसैः कृदाकृज्युहुयाद्वग्नौ पीडे पूर्वोदिदे जयेद् अङ्गान्यादौ समाजाद्यदिक्पत्रेषु यजेत्पुनः गरुडादीन् श्रीमुखांश्च विदिक्षु लोकपान् येवं संसाधिदो मन्त्रः सर्वान् कामान् प्रपूरयेद सौम्ये कार्ये स्मरेत् सौम्यं क्रूरं क्रूरे स्मरेद्बुधः पूर्वमृत्युपदे शत्रोर्नाम कृत्वा स्वयं हरिः निषिध नखदंष्ट्राघ्रैः खाद्यमानं च संस्मरेद अष्टोत्तरशतं नित्यं जपेन् मन्त्रमदन्द्रितः ्यायदे मण्डलाधर्वशत्रुर्वैशमनातिथिः ध्यानभेदानथो वक्ष्य सर्वसिद्धिप्रदायकान् श्रीकामसतम् ध्यायेत् पूर्वोक्तं नृखरिंसिदं वामाङ्गस्थितया लक्ष्म्या लिङ्गितं पद्महस्तया विषमृत्युपरोगादि सर्वोपद्रवनाशनम् नरसिंहमहाभीमनकालानलसमप्रभम् आम्रमालादरं रौद्रं खण्डहारेण भूषितं नागयज्ञोपवीतं च पञ्चाननसुशोभितं चन्द्रमौलिनीलकण्डं प्रतिवक्त्रं त्रिनेत्रकं भुजै परिखसङ्काशय दशभिश्चोभशोभितम् अक्षश्रोत्रम् कदा पद्मं शङ्खं गोक्षीरसन्निभं धनुश्च मुशलं चैव बिभ्राणं चक्रमुत्तमं खड्गं शूलं च बाणं च नृखरिं रुद्ररूपिणम् इन्द्र गोपाभनीभं चन्द्राम्भं गो स्वर्णसन्निभं पूर्वादिचोत्तरं यावदूर्ध्वास्यं सर्ववर्णकम् एवम् ध्यात्वा जपेन्मन्त्री सर्वव्याधिविमुक्तये सर्वमृत्युहरं दिव्यं स्मरणात् सर्वसिद्धितं ध्या यद्यमा महत्कर्म तदा षोडशहस्तवान् नृसिंह सर्वलोकेश सर्वभरणभूषितः द्वौ वितारणकर्माप्तौ द्वौ चान्द्रोद्धरणान्वितौ शङ्खचक्रधरौ द्वौ द्वौ द्वौज बाणधरुर्धरौ खड्गखेडधरौ द्वौज द्वौ गदा पद्मधारिणौ पाशाङ्कुशधरौ द्वौज द्वौ रिपोर्मुकुडार्पितौ यदि षोडशदोर्दण्डमण्डितं नृहरिं विभुं ध्याये नारदनीलाभमुग्रकर्मण्यनन्यधीः ध्येयो महत्तमे कार्ये द्वात्रिंशद्धस्तवान् बुधैः नृसिंह सर्वभूतेश सर्वसिद्धिकरः परः दक्षिणे चक्रपद्मे च परशुं पाशमेव च हलं च मुशलं चैव अभयं चाङ्कुष्यं तथा पट्टिषं बिन्दिपालं च खड्गमुद्गरतो मरान् वामभागे करैः शङ्खं पाशं च शूलकम् अग्निं च वरदं शक्तिं कुण्डिकां च ततः परं कर्मुकं तर्जनीमुद्राः गदां दमरु चोर्पकौ द्वाभ्यां कराभ्यां चरिपोर्जानुमस्तकपीटनम् ऊर्द्वि कृताभ्यां बाहुभ्याम् आन्ध्रमालाधरं विभुं। अधस्थिताभ्यां बाहुभ्यां हिरण्यकविदारणम् प्रियंकरं च भक्तानां दैत्यानां च भयङ्करं नृसिंहं तं स्मरे दिद्धं ध्यात्वा एवं ध्यात्वा जपेन्मन्त्री सर्वकार्यार्थसिद्धये अतोच्यते रोगहरं शुभं स्वर्णवर्णसुपर्नष्टं विद्युन्माला षडान्वितम् कोडिपूर्णेन्दुवर्णं च सुमुखं त्र्याक्षिवीक्षणं पेदवस्त्रोरुभूषाढ्यं नृसिंहं शान्दविग्रहं चक्रशङ्खाभयवरान् दधं करबल्लभैः क्ष्वेडरोगादिशमनं स्वैर्घानैः स्वैर्ध्यानैः सुरवन्दितम् शत्रो निरोधेन यत्नं कुर्याश्च साधकम् अक्षकाष्ठैरेधितेघ्नौ विचिन्त्य रिपुमन्दनं देवं नृसिंहं सम्पूज्य कुसुमाद्युपचारकैः समूलमूलैर्युभूयाचरै दशशतं पृथक् रिपुं खादन्निवजपेन्निर्दहन्निव कं क्षिपेद भूत्वा सप्तदिनं मन्त्रि तेनामिष्ठां महीपदेः प्रस्तापयेचुभे लग्ने परराष्ट्रजये चया तस्यां पुरस्तान्नृहरिं निघ्नन्तं रिभुमण्डलं स्मृत्वा जपं प्रगुर्वेद यावद्दायादि सा पुनः निर्जित्य निखिलान् शत्रून् सह वीरश्रिया सुखाद णयेन्मन्त्रिणं राजा विभवै प्रीतमानसः गज अश्वरथरत्नैश्च ग्रामक्षेत्रधनादिभिः यदि मन्त्री न तुष्येत तदनर्थो महीपतेः जायते तस्य राष्ट्रेषु प्राणेभ्यो विमहाभयम् नाशयन्मूषिका लूता वृच्छिकाद्युद्धितं विषम् लिप्ताङ्गसर्वरोगैश्च नात्र संशयः सेवन्ती कुसुमैर्हृत्वा महतीं श्रियमाप्नुयाद औदुम्बरसमिद्भिस्तु भवे धान्यसमृद्धिमान् अपूपा अपूपलक्षकोमेदु भवेद्वैश्रवणोपमः क्रुद्धस्य सन्निधौ राज्ञो जपे दष्टोत्तरं शदं सद्यो नैर्मल्यमाप्नोदिप्रसादं चाधिगच्छति कुन्दप्रसूनैरुदयं मोजाभिर्विघ्ननाशनं तुलसीपत्र होमे नमकदीं कीर्तिमाप्नुयाद शाल्युद्धसक्रुहोमेन वशये दखिलं जगद मधूकपुष्पैरिष्टं स्यास्तम्भनं धात्रिकण्टकैः दधि मद्वाज्य मिश्रां दु गुटूचीं चतुरङ्गुलां जुहुयादयुधं योऽसौषतं जीवदिरोगजिद शनैश्चर दिनेश्वर्धं चाष्ठोत्तरं शतं जपे जित्वा सोपमृत्युं सदवर्षानि जीवति अध ते सम्प्रवक्ष्यामि यन्त्रं त्रैलोक्य मोहनं यस्य सन्धारणादेव भवेयु सर्वसंपदः स्वेदभूर्जे लिखेत् द्वात्रं द्वात्रिंशत्सिंहसंयुतम् मध्ये सिंहेत् स्वबीजं च लिखेत् पूर्व वदेवतु श्रीबीजेन संवेद्य वलयत्रय संयुतं पाशाङ्कुशैश्च संवेष्ट्य पूजयेद्यन्द्रमुत्तमं त्रैलोक्यमोहनं नाम सर्वकामार्थसाधनं चक्रराज महाराजं सर्व चक्रेश्वरेश्वरं धारणा जयमाप्नोति सत्यं सत्यं संशयः अध यन्त्राक्षरं वक्ष्ये शृणुनारदसिद्धिदम् अष्टारम् विलिखेद्यन्तं शक्ष्णम् कर्णिकयायुधम् मूलमन्त्रम् लिख्येत्तत्र प्रणवेण समन्वितं यगाक्षरं नारसिंहम् मध्ये चैव ससाध्यकम् जपे दष्टसहस्रं तु सूत्रेणावेष्ट्य तद्बहिः स्वर्णरौप्यसुधाम्रैश्च वेष्टयेत्र मदस्सुधीः लाक्षया वेष्टितं कृत्वा पुनर्मन्त्रेण मन्त्रयेद् कण्ठे भुजे शिखायां वा धारयेद्यन्त्रमुत्यन्त्रमुत्तमं नरनारी ना नरेन्द्राश्च सर्वे स्युर्वशगा भुवि दुष्टास्तं नैव बाधन्तेऽपिशाचोरक राक्षसाः यन्द्रराजप्रसादेन सर्वत्र जयमाप्नुयाद अध अन्यसम्प्रवक्ष्यामि यन्द्रं सर्ववशङ्करं द्वादशारमहाचक्रं पूर्ववद्विलिखेत् सुधीः मात्रा द्वादश सम्भिन्नदलेन विलिखेद्बुधः मध्ये मन्त्रं शक्तियुक्तं श्रीबीजेन दु वेष्टयेद् कालान्तकं नाम चक्रं सुरासुरवशङ्करं चक्रमुल्लेखयेद्भूर्जे सर्वशत्रुनिवारणं यस्य धारणमात्रेण सर्वत्र विजयी भवेद् अथ सर्वेष्टदं ज्वाला मालिसंज्ञं वदाम्यहं बीजं हृद्भगवान् केन्दो नरसिंहाय तत्परं ज्वालिने मालिने दीप्तदंष्ट्राय अग्निने पदं त्राय सर्वादिरक्षोघ्नाय च न सर्वभूपदम् हरिर्विनाश नायान्दे सर्वज्वरविनाशनः नामान्दे दहयुग्मं च भजद्वयमुदीरयेद् रक्षयुक्मं च वर्मास्त्रठद्वयान्तो ध्रुवाधिकः अष्टषष्ट्यक्षरै प्रोक्तोज्ज्वालमालीमनुत्तमः पुण्यादिकं तु पूर्वोक्तं त्रयोदशभिरक्षरैः पङ्क्तभी रुद्रसङ्ख्याकैरष्टादशभिरक्षरैः भानुभिः करणैर्मन्त्रि वरे रङ्गानि कल्पयेद् पूर्वोक्तरूपिणम् ज्वालामालिनं नृहरिं स्मरेद् लक्षं जपो दशांशं च ज्युहुयात् कपिलाधृदैः प्राणोमाया प्राणो सृष्टिर्ब्रह्माश्रमीरिदः षडक्षरो महामन्त्रसर्वाभीष्टप्रदायकः मुनिर्ब्रह्म तदा छन्दपङ्क्रिर्देवो देवो षड् दीर्घभाजाबीजेन षडङ्गानि समाचरेद पूर्वोक्तेनैव विधिना ध्यानं पूजां समाचरेद सिद्धेन मनुनानेन सर्वसिद्धिर्भवेन्दृणम् रमाबीजादिगो नुष्टुब्त्रयस्त्रिंशार्णवान्मनुः प्रजापतिर्मुनिष्टन्दो नुष्टुब्लक्ष्मी नृकेसरी देवताजपदै सर्वेणाङ्गकल्पनमीहितं विन्यस्यैवं तु पञ्चाङ्गं स्वात्मरक्षां समाचरेद संस्पृश्यन् दक्षिणम्बाहुं शरभस्य मनुं जपेद प्रणवो हृच्चिवायेदि महदे शरभाय च वग्निप्रियान्दो मन्त्रस्तु रक्षार्थे समुदाहृदः अथ वा राममन्त्रान्ते परं क्षद्विद्युदयं परे परं क्षद्विदयं पठेद् अथ वा केशवाद्यैस्तु रक्षां कुर्यात् प्रयत्नतः केशवपादु पादौ मे जङ्के नारायणो वदू माधवो मे कडिं पादु गोविन्दो गुह्य मे वजा नाभिं विष्णुश्च पादु जठरं मधुसूदनः ऊरू त्रिविक्रमपा हृदयं पादु, पादु मे नरः श्रीधरपादुकण्ठं च कृषिकेशोमुखं मम पद्मनाभस् तनौ पादुशीर्षं दामोदरो वधु एवं विन्यस्य चाङ्गेषु जपकालेदु दुसाधकः निर्भयो जायते भूत वेदालग्रह राक्षसाध पुनर्न्यस्येत् प्रयत्नेन ध्यानं कुर्वन् समाहितः पुरस्तात्कशवपादचक्री जाम्बूनदप्रभः पश्चान्नारायणशङ्गी नीलजीमोदसन्निभः ऊर्ध्वमिन्दिवरश्यामो माधवस्तु गदाधरः गोविन्दो दक्षिणे पार्श्वे धन्वीचन्द्रप्रभो महान् उत्तरे हलदृग्विष्णुपद्मकिञ्चल्कमसन्निभः आग्नेयामरविन्दाक्षो मुसलिमधुसूदनः त्रिविक्रमखड्गपाणिर्नैरृत्यां ज्वलनप्रभः वायव्यां माधवो वज्रीतरुणादित्यसन्निभः यशां पुण्डरी काक्षश्रीधरपट्टिशायुधः विद्युत्प्रभो कृषिकेश ऊर्ध्वे पादु समुद्गरः अधश्च पद्मनाभौमे सहस्रांशुसमप्रभः सर्वायुध सर्वशक्ति सर्वाद्य सर्वतोमुखः इन्द्रगोपप्रभपायात् पाशहस्तोपराजितः स बाह्याभ्यन्तरे देहमव्या दामोदरो हरिः एवं सर्वत्र निश्चिद्रं नामद्वादशपञ्चरं प्रविष्टोहन मे किञ्चिद्भयमस्ति कदाचन एवं रक्षां विधायाध दुर्धर्षो जायते नरः सर्वेषु नृ हरेर्मन्द्र वर्गेष्वेवं विधिर्मदः पूर्वोक्तविधिना सर्वं ध्यानपूजादिकं चरेद जिदं ते पुण्डरीकाक्ष नमस्ते विश्वभावन नमस्ते तुलषीकेशमः पुरुषदे नमः इदं सम्प्रार्थ्य जत्वा च पठित्वा एवं सिद्धे मनोमन्त्री जायदे सम्पदां पदं जयद्वयं श्रीनृसिंहेत्यष्टार्णोयमनोत्तमः मुनेर्ब्रह्मादगायत्रीचन्द प्रोक्तोस्य देवदा श्रीमान् जय नृसिंहस्तु सर्वाभीष्टप्रदायकः सेन्दुगोविन्दपूर्वेण वियदा सेन्दुना पुनः षड् दीर्घाढ्येन घुर्वीधषडङ्गानि विशालधीः तदो ध्याये धृतिविभुं नृसिंहं चन्द्रशेखरं श्रीमन्नृकेसरिदनो जगदेगबन्धो श्रीनीलकण्ठ करुणार्णव सामराजवाह्नेन्दुतीव्र करनेत्रपिनाकपाडे सीतांशुशेखर रमेश्वर पाहि विष्णो ्यात्वैवं प्रजपे लक्षाष्टकं मन्त्री दशां शदः साजेन पायसान् जुहुयात् प्राग्वदर्चनम् हो मायास्वबीजान्ते कर्णोऽग्रं वीरमीरयेद महाविष्णुं ततो ब्रूयाज्वलन्दम् सर्वतोमुखम् स्फुरद्वयं प्रस्फुरेदि द्वयं घोरपदं तदः वदेत् खोरतरं ते दु तनुरूपं च प्रठद्वयं प्रचडद्वयमाभाष्य कः युग्मनचमद्वयं बन्धद्वयं खादयेदि द्वयं वर्मात्र मीरयेद् नृसिंहभीषणं भद्रं मृत्युं मृत्युं नमाम्यहं पञ्चाशीत्यक्षरो मन्द्रो ऋषी ह्यखोरब्रह्माणौ तथा त्रिष्टुबनुष्ठुभौ चन्दसि च कोर खोरनृसिंहो देवतामदः ध्यानार्चनादिकं चास्य कुर्यादानुष्ठुभं सुधीः विशेषान् मन्त्रवर्योय सर्वरक्षाकरो मदः बीजं जययुगं पश्चान् नृसिंहेत्यष्टवर्णवान् ऋषिप्रजापतिश्चास्यान्योष्टुप्छन्द उदाहृदं विदारण नृसिंहोऽस्य देवता परिकीर्तितः जम्बीजं हं तथा शक्तिर्विनियोगो किलाप्तयेन् दीर्घाढ्येन नृसिंहेन षडङ्गन्याः समाचरेद रौन्द्रं ध्यायेन् नृसिंहं तु शत्रुवक्षो विदारणम् नखदंष्ट्रायुधं भक्ताभयदं श्रीनिकेदनं तप्त हाडक केशान्तज्वलत्पावकलोचनं वज्राधिकनखस्पर्श दिव्यसिंहनमोऽस्तु दे मुनिर्ब्रह्म समाख्यादो नोष्टुप्षन्धः समीरिदः देवतास्य रदार्णस्य दिव्यपूर्वो पद्धैश्च दुद्भिः सर्वेण पञ्चाङ्गानि समाचरेत् ध्यानपूजादिकं सर्वं प्राग्वप्रोक्तं मुनीश्वर पूर्वोक्तानि च सर्वाणि कार्याण्या यान्ति सिद्धतां तारो नमो भगवदे नरसिंहाय कृच्छते जे जसे आविराविर्भववज्रनकान्ततः व्रजदं श्रेदि कर्मान्दे त्वासयाक्रन्दयद्वयं तमोग्रसद्वयं पश्चात् स्वाहान्दे चाभयं तदः आत्मन्यन्ते च भूयिष्ठाध्रुवो बीजान्दिमो मनुः द्विषष्ठ्यर्णोऽस्य मुन्यादि सर्वं पूर्ववदीरितं तारो नृसिंहबीजं च नमो भगवते ततः नरसिंहाय तारश्च बीजमस्य यदा तदः रूपाय तारस्वर्बीजं कूर्मरूपाय तारकं बीजं वराहरूपाय तारो बीज नृसिंहतः रूपाय तारस्वं बीजं वामनान्दे च रूपदः पावध्रुवत्रयं बीजं रामाय निगमादिदः बीजं कृष्णाय तारान्ते बीजं च कल्किने तदः जयद्वयं ततःशालग्रामान्ते च निवासिने दिव्यसिंहाय डेन्धस्यात् स्वयं भूः पुरुषाय हृद तारस्वं बीजमित्यष महासाम्राज्यदायकः नृसिंहमन्ध्रकाङ्कार्णो मुनिरात्रिप्रकीर्तितः छन्दोदिजगति प्रोक्तं देवता कथितामनोः दशावतारो नृकरिं बीजं खं शक्तिरव्ययः षड् दीर्घाढ्यनबीजेन कृत्वाङ्गा निज भावयेद अनेकचन्द्रप्रतिमो लक्ष्मीमुखकृते क्षणः दशावतारैः सुखं जपो युधं दशांशेन होमस्यात् पायसेन तु प्रागुक्ते पूजयेत्पीठे मूर्तिं सङ्कल्प्य मूलतः अङ्गन्यादौ च मत्स्याद्यान् दिग्दलेषु ततोचयेत् इन्द्राद्यानपि वज्राद्यान् सम्पूज्येष्टमवाप्नुयात् सहस्रान्नं महामन्त्रं वक्ष्येत् तन्त्रेषु कारो माया रमाकामबीजं क्रोथ पदं ततः मूर्ते नृसिंहशब्दान्धे महापुरुष ईरयेद् प्रधानधर्माधर्मान्धे निगडेति पदं वदेद् निर्मोचनान्धे कालेदि ततः पुरुष ईरयेद् कालान्धसदृक्तोऽयं स्वेश्वरान्धे सदृज्जलं श्रान्दान्देदु निविष्ट चैतन्यचित्सदा तदः पासकान्ते तु कालाद्यतीदनित्योदिते दिज उदयास्तमयाक्रान्तमहाकारुणिके दिज हृदया चतुश्चोक्रा कलान्तेदु निविष्ठितः चैतन्यात्मन् चतुरात्मन् द्वादशात्मस्ततः परम् चतुर्विंशात्मन्नपञ्चविंशात्मन्नित्यभि भगोहरिसहस्रान्ते मूर्ते ये ह्ये हि शब्दः भगवन् नृसिंहपुरुषक्रोधेश्वररसा सह स्रवन्दितान्दे पादेधिकल्पान्ताग्निसहस्र च कोड्यापान्धे महादेव निकाय दशशब्दः शतयज्ञादलं ज्ञेयं ततश्चामलयुग्मगं पिङ्गलेक्षण षडाधंष्ट्राद्धंष्ट्रायुधनखायुध दानवेन्द्रान्धका वह्निन शोणितपदं ततः सं सकृ विग्रहान्धेतु भूताप स्मारया दूधान् सुरासुरवन्द्यमानपादभङ्गदशब्ददः भगवन् व्योमचक्रेश्चरान्दे दुःप्रभाव प्रभावप्यया रूपेणोत्तिष्ठचोत्तिष्ठ अविद्यानि च यन्दह दह ज्ञानैश्वर्यमन्दे प्रकाशय युगं ददः ॐ सर्वज्ञ अरो सत्यपुरुषशब्दान्ते सदा सन्मध्य गीरयेदे निविष्टं मम दुःस्वप्नभयं निगडशब्ददः भयं कान्तारशब्दान्ते भयं विषपदात् तदः ज्वरान्धेडागिनी कृत्याध्वरे वदी भयं तदः आशन्यन्ते भयं दुर्भिक्ष भयं मारी शब्ददः भयं मारी च शब्दान्ते भयं छायापदं तदः स्कन्दा पस्मादशब्दान्धे भयं चौरभयं तदः ज्वलस्वप्नाग्निभयं गजसिंहभुजङ्गदः भयं जन्मजरान्धे मरणादिशब्दमीरयेद् भयं निर्मोचययुगं प्रशमययुगं तदः ज्ञेयरूप धारणान्धे नृसिंह बृहत्सामदः पुरुषान्ते सर्वभयनिवारणपदं ततः अष्टाष्टकं चतुष्षष्टिचेटिकाभयमीरयेद् दे। विद्यावृतस्त्रयस्त्रिंशत् देवताकोटिशब्दतः नविदान्ते पदपदात्पङ्गजान्युत ईरयेद् सहस्रवदनान्धे दुःसहस्रोदरसंवदे सहस्रेक्षणशब्दान्ते सहस्रपादमीरयेद् सहस्रभुजः सम्प्रोच्य सहस्रजिह्वसंवदे सहस्रान्धे ललाडेधि सहस्रायुधतोधराद तमप्रकाशकपुरं मदनां देधु सर्व च मन्त्रे राजेश्वरपदाद्विहाय सगदिप्रद पादालगतिप्रदान्ते यन्त्रमर्दन ईरयेद कोराटः स असीद विश्वासपदं तदः वासुदेव तदो क्रूरतदोखयमुखेतिज परमहंस विश्वेश विश्वान्देदो विडम्बन निविष्टान्ते तद प्रादुर्भावकारक ईरयेद् कृषिकेशज स्वच्छन्द निश्चेष जीवविन्यसेद ग्रासकान्दे महापश्चात्पीषिता सृगितीरयेद् लम्पडान् दे खेजरीदि सिध्यन् दे दुःप्रदायक अजेयाव्यय अव्यक्त ब्रह्माण्डे ब्रह्माण्डोदर इत्यपि ततो ब्रह्मसहस्रान्धे कोडि स्र गु गृणन् स कोडे स्रगृह्णशब्दतः मालपण्डितमुण्डेदि मत्स्यकुर्म ततः परं वराहान्ते नृसिंहेदि वामनान्ते समीरयेद दे। त्रैलोक्याक्रमणान् देतु पादशालिक ईरयेद् दे। रामत्रय ततो विष्णुरूपान्ते धरये वच तत्त्वत्रयान्ते प्रणवाधारतस्तच्छिखां पदं निविष्टवह्नि जायान्ते स्वथा चैव ततो नेत्र वास्मास्त्र नेत्रपात्मास्त्रमुच्चार्यप्राणाधार इती जयेद् आदिदेव पदात् पदाप्राणपानपश्चान्निविष्ठितः पाञ्च रात्रिकदिदिज विनिधनान्ते करेतिज महामाया अमोकान्ते दर्यं दैत्येन्द्रशब्ददः दर्यान्दे दलनेत्युक्ता तेजोरासिन्ध्रुवं स्मरः तेजस्वरान्धे पुरुष्पङ्गेन्दे सत्यपूरुष अस्त्र तारोच्युतास्त्रं च तारो वाचा सुदेव फट मूर्तेऽस्त्रमव्ययो बीजं विश्वमूर्तेऽस्त्रिमव्ययः मायाविश्वात्मने षट् च तारसौजं तुरात्मने फट् तारोहं विश्वरूपन्नस्त्रं च तदनन्तरं तारौ ह्रै परमान्ते दुह्रं स फट् प्रणवस्ततः ह्रः हिरण्य गर्भरूप नौपम्यरूप धारिणास्त्रं ध्रुवस्तदः क्ष्वं नृसिंहरूपधारिं ॐ क्लं स्वश्च स्वराधिकष्ठाङ्गे धारिंस्ततश्च फट। ह्रौ निसर्ग सिध्यैकरूप धारिंस्ततश्च पठ तरोवर्मत्रयं संकरं वं चामुकमस्तकं खण्डद्वयं खादयेदि द्वयं क्लीं साध्यमानय द्वयं तदो महात्मन स्यान् सम्यक् दर्शय युग्मकं षड् दीर्घाढ्यां स्वबीजं च क्षपितान्ते दुकल्मष उत्तरायं द्वयं पञ्चबाणबीजानि वोच्चरेद नृसिंहान्ते तदोज्ज्वालात्मने स्वाहा समीरयेद नृसिंहान्ते तद कालात्मने स्वाहा ध्रुवस्तदः क का बीजं कामबीजं च लक्ष्मीबीजद्वयं तदः मायातारान्तिमो मन्त्रः सहस्राक्षरसंमिदः कपिलोऽस्य मुनिश्चन्दो जगति देवता पुनः श्रीलक्ष्मीर्नृहरिर्बीजम् क्ष्वम् शक्तिर्वह्निवल्लभ स्वेदो वर्ण उदात्तश्च स्वरप्रोक्तो मनीषिभिः क्षेत्रम् च परमात्मादु विनियोगो खिलाप्तये क्षः सहस्रबाह वेन्दे सहस्रयुधाराय च वाग्नि जायास्त्राय फट्मन्त्र ईडिदः अनेन करशुद्धिं च कृत्वाङ्गानि समाचरेद् तारः क्षां च सहस्रान्धे क्षरशब्दाद्विगृम्भितं नृस्सिंहायाग्नि जायान्दो हृदये मनुरीरिदः मारह च महातेनुं प्रभादे विकरेति च नृसिंहायाग्नि जायान्दे शिरो मन्द्रप्रकीर्तिदः तारः क्षुं तप्तयम् यं हायश्चादृकेशान्त ईरयेद जलत्यावकलो कोर्मो दीर्घवज्राधिकेधिजनखस्पर्शाद्दिव्या महाद्वस्त भगवन्हरिः महाद्वस्तजगद्रूपनृसिंहायद्वयं द्वयं, द्वयं। अनेन च शिखा प्रोक्ता कवचं तदनन्तरं तारः क्षैं च सुवर्णं देमदमत्तपदं तदः विह्वलिदनृसिंहाय स्वाहान्तं कवचं स्मृतं तारः क्ष्वं च सहस्राय विश्वरूपपदं वदेद धारणेऽग्निप्रियान्तोयनेत्रमन्थप्रकीर्तिदः तारोक्षश्च सहस्रान्धे े पदमीरयेद सहस्रान्धे युधायाध नृसिंहा याग्निसुन्दरी अस्त्र मन्त्रसमाख्यादस्तदोऽध्यायेन्नृकेसरीम् उद्यतर्कसहस्राभंत्रीक्षणम् भीमभूषणम् सुतीक्ष्णाग्रभुजो दण्डेर्दैत्यधारणगं स्मरेद येवं ध्यात्वा जपेन्मन्त्रीसहस्रं पायसेन च आज्यप्लुतेन जुहूयात् सम्यक्सिद्धो भवेन्मनुः प्रागुक्ते वैष्णवे पीठे मूर्तिं सङ्कल्प्य मूलतः सम्पूज्य नृकरिं पश्चादावङ्गानि पूजयेद् चक्रं शङ्खं च पाशं वङ्कुशं कुलिशमेव गदा कृपाणि क्ष्वेडानि दलेषु परिपूजयेत् लोकेशापि वज्राद्यान् पूजयेत् तदनन्तरम् एवं सिद्धे मनवमन्त्री प्रयोगान् कर्तुमर्हति भस्माभिमन्त्रितं कृत्वा ग्रहग्रस्तं विलेपयेद् भस्मसंलेपनादेव सर्वग्रहविनाशनम् अनेनैव विधानेन यक्षराक्षसकिन्नराः राक्षस किराः भूतप्रेदपिशाचाश्च नश्यन्त्येव न संशयः पराभिचारकृत्यानि मनुनानेन भस्मसंलेपयेत् सद्यो नरः सुदिने स्थापयेत् कुम्भे सर्वतो भद्रमण्डले तीर्थतोयेन सम्भूर्य जपे दष्टोत्तरं शतं तेनाभिषिक्तो मनुजः सर्वपत्तिं तरे ध्रुवं किं बहुक्तेन सर्वेष्टदायकोयमनुत्तमः वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि तन्नो नृसिंहशब्दान्ते पदे चैव प्रचोदयाद् एषा नृसिंहनायत्री सर्वाभीष्टप्रदायिनी यदस्या स्मरणादेव सर्वपापक्षयो भवेद इति श्री बृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे नृसिंहोपासनामन्त्र गायत्र्यादिनिरूपणं नामैकसप्ततितमोऽध्यायः ओम्